मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं नैन्टीन् समासवत्सरचरितं श्रीगणेशाय नमः शौनक उवाच मासानां चरितं ब्रूहि सूदसर्वार्थकोविद मखमासे गणेशस्य पूजनं कीदृशं भवेद सूत उवाच ब्रह्मणाङ्गसमुत्पन्नः संवत्सरः प्रतापवान् मासाद्वादश तस्याङ्गात् पुरामुने पुरा मुने छायायामकमासश्च समुत्पन्नः शुभप्रदः सहतैर्गणपम् ध्यात्वा तपस्तेपेस स वत्सरः षडक्षरमहामन्त्रम् जजापब्रह्मणोदिदम् गणेशस्य सदाध्यानम् चकारकर्षसंयुधः एवम् वर्षसहस्रेण प्रसन्नो वरदो भवद तमाययौ गणाधीशो भक्तं भक्तजनप्रियः उवाच तं समाधिस्थं संवत्सरं गजाननः समासत्वं वरान् ब्रूहि परान्मत्तो हृदीप्सितान् गणेशवचनं श्रुत्वा संवत्सरो बुबोधतं समुद्धाय गणेशानं ननाम भक्तिसंयुधः समासः पूजयामास यदा विध्युपचारदः पुनः प्रणम्य विघ्नेश्यं तुष्टाव करसम्पुटः समाससंवत्सर उवाच नमस्ते धूम्रवर्णाय वक्रतुण्डाय धुण्ढये हे रम्बाय परेशाय विघ्नेशाय नमो नमः शूर्पकर्णाय सर्वेषां पूज्याय परमात्मने लम्बोदराय सर्वादिपूज्याय तु नमो नमः अनाधानां सुनाधाय पात्रे हर्त्रे नमो नमः कर्त्रे त्रिगुणरूपाय गुणहीनाय ते नमः आदिमध्यान्दसंस्थाय आदिमध्यान्दविवर्जिते गणेशाय गणानां ते चालकाय नमो नमः ब्रह्मणां पदये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने ब्रह्मणे ब्रह्मभूताय ब्रह्मिष्ठाय नमो नमः सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिमयाय च सिद्धिबुद्धिपदे तुभ्यं सर्वेशाय नमो नमः अनन्दविभवायैवानन्दमायाप्रचारिणे मायिने मायिनां मोहदात्रे मायास्वरूपिणे शान्तियोगमयायैव शान्तियोगधराय ते शान्तियोगप्रदात्रे च योगेशाय नमो नमः किं स्तौमि त्वां गणाधीश चिन्तामणिस्वरूपिणे योगिनः शान्तिमापन्ना वेदा यत्र विशेषतः अदो न माम्यहं तेन तुष्टो भवप्रभो वरान् देहि स्वकार्याणां सिद्धिदान् सुखदायकान् भक्तिं ते चरणे नित्यं देहि सर्वभयापहा कालमानकरं धुण्डे वीर्यं देहि स्वभावजं कर्म मासादिषु प्राज्ञैकृदं तच्छुभदं भवेद साक्षित्वं कर्मणां देहि साधु पादप्रभूजनं यवमुक्त्वा प्रणेमुस्तं मासावत्सरान्विताः तानुवाच गणाध्यक्षो वाचस्तोत्रेण तोषिदः श्रीगणेश उवाच यद्यत्सम्प्रार्थिदम् मासात् संवत्सर तथास्तु वै सर्वाकालरूपस्था भविष्यधनसंशयः सूर्येण संयुता सर्वे द्वादशदेहधारिणे भवलदा कर्मणां चैव भविष्यध विशेषतः ब्रह्मार्पणतया कर्म यद्भवत् सुहृदं नरैः अन्ते सलोकदां तेभ्यो दादारश्च भविष्यथ दा। यार्थात्तद्यविभागेन साक्षिणः सर्वजन्मिनां भविष्यथ तथा भक्ता मयि मोहविवर्जिताः आदित्येन परित्यक्तोऽधिमासस्त्वं भविष्यसि देवताहं त्वदीयेदु कर्मणां फलदायकः सर्वेषु मखरूपं यत्कृतं मासेषु मानवैः नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः त्वदीये कालभावेदु कर्म यन्मानवैः कृतं नानाभावयुधं तेभ्योऽहं भवामि फलप्रदः भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेद पठतां शृण्वतां नृणाम् भावपूरं न कालदोषभवं पापं कालस्योल्लङ्घनादिकं हराम्यनेन स्तोत्रेण तुष्टोऽहं भुक्तिमुक्रिदः एव मुक्त्वान्तर्दधेस्सौ गणेशो गणवल्लभः संवत्सरप्रसन्नात्मा स्वकार्यनिरदो भवद मासा स्वकार्यसामर्थ्ययुक्ता हृष्ठा काल भावधरा सर्वे साक्षिणः सर्वकर्मणाम् एतत्संवत्सरस्यैव समासस्य चरित्रकं यः पठेच्छृणुयाद्वापि सकालसुखमाप्नुयाद ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले अष्टमे खण्डे धूम्रवर्णचरिते समासवत्सरचरितं नामैको न ना विंशोऽध्यायः